श्रीहरये नमः अत कोन पञ्चाशत्तमोऽध्यायः श्रीशुक उवाच स गत्वा हास्ति ददर्श तत्र आम्बिकेयं सभीष्मं विदुरं पृथान् सहपुत्रं च बाग्लीकं भारद्वाजं स कर्णं सुयोधनं द्रौणिं पाढवान् सुहृदोपरान् यथावत् उपसंगम्य बन्धुभैर्गान्तिनीसुतः सुहृद्वार्ता स्वयंच च अपृच्छद्व्ययम् उवासगतिचिन्मासान् राज्ञो वृत्तवित्सया दुष्प्रजस्याल्पसारस्य कलन्दु छन्दानुवर्तिनः तेजवोजो भलम् वीर्यम् प्रश्रयादींश्च सद्गुणान् प्रजानुरागमार्तेषो न सहद्भिश्चिकीर्षितं कृतं च धार्दराष्ट्रैर्यद् आचक्यौ सर्वमेवास्मै पृथा विधुर एव च पृथा दु भ्रातरं प्राप्तम् अक्रूरम् उपश्रुत्य तम् उवाच जन्मनिलयं स्मरन्तस्य रुकलेक्षणा अपि स्मरन्ति नौ भ्रातरश्च मे भगिन्यो भ्रातृपुत्राश्च जामयक्सख्य एव च भ्रातृयो भगवान् भक्तवत्सलः पैतृष्मसेयान् रामश्च अम्बुरुहे क्षणः सपत्नमध्ये शोचन्ते वृक्षाणां करिणीमिव सान्त्वयिष्यति मां बालकान् कृष्णकृष्णमहायोगिन् विश्वात्मन् विश्वभावना प्रपन्नां पाहि गोविन्द शिशुभिश्चावसीधती नान्यत्तव पदां भोजात् पशा शरण बिभ्यता मृत्यु संसाराईश्वर सर्गिकात्मक शुद्धा ब्रह्मणे परम शता श्रीशुक उवाच इत्यनुस्मृत्य स्वजनं कृष्णं च जगदीश्वरं भ्रातृधुःखिता राजन् भवतां प्रपितामहे समदुःखशुको क्रूरो विदुरश्य महायशाखा सान्त्वयामासतु कुन्तें तत्पुत्रोत्पत्तिहेदुभिहे यास्यन् राजानमभ्येत्य विषमं पुत्रलालसम् अवदत् सुकृदां मध्ये बन्धुभिः सौहृदोदितम् अक्रूर उवाच भोपो वैचित्रवीर्यत्वं कुरूणां कीर्तिवर्धनः भ्रातर्युपरते पाण्डवधुना आसनमास्थितः धर्मेण बालयन्नोर्वे प्रजाशीले रञ्जयन् वर्तमानः समस्वेषु अनदा द्वाचर लोघे गर्त तो या सैतम तस्मा सर्तस्व पांडवेशु आत्मजेश नेकसातसंवास कर्चि कि राजस्पिदेहन किमतिम ये कसूयते जंतु प्रलीय एको नुभुङ्क्ते सुकृतमेक एवचदुष्कृतं, अधर्मोपचितं वित्तं हरन्त्यन्येऽल्पमेधसः सम्भोजनीयापदेसैर्जलानीव जलौकसः पुष्णातियानधर्मेण सभोद्यातमपण्डितं ते कृतार्थं ब्रहिण्वन्ते प्राणारायसुतादयः स्वयं गिल्बिषमाधाय तैस्त्यक्तो नार्थको विदः विसत्यन्धं स्वधर्मविमुखस्तमः तस्माल्लोकमिमं राजन् स्वप्नमायामनोरथं वीक्षायं यात्मनात्मानं समःशान्तो भव प्रभो यथा वदति कल्याणीं वाचं दानपते भवान् तथा नया न तृप्यामि मर्त्यप्राप्य यथा तथापि सुनृता सौम्य हृदि न स्तीयते चले पुत्रानुरागविषमे विद्युत्सौधामनीयत ईश्वरस्य विधिं विधुनोऽध्यन्यता पुमान् भूमेर्भारावताराय योवतीर्णो य गोकुले योतुर्विमर्शपतयानि जमाय एतं सृष्टा गुणान् विभजते दतनुप्रविष्टहा तस्मै नमो दुरवबोतविहार परमेश्वराय श्रीसुक इत्यभिप्रेत्य नृपते अभिप्रायं स यादवः सुहृद्भिक् समनुज्ञातः पुनर्यदुपुरीमघात् स संस रामकृष्णाभ्यां पाण्डवान् प्रति कौरव्य यदर्थं प्रेक्षितः इति श्रीमद्भागवते महापुराणे वैयासिक्याम् अष्टादशसाहस्यां पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्थे एकोनपञ्चाशत्तमोऽध्यायः समाप्तितं दशमस्कन्दस्य पूर्वार्थं श्रीहरये नमः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द गोविन्द सद्गुरुनाथमघराजकी जय